श्रीहरये नमः अत एकोनविंशोऽध्यायः मैत्रेय उवाच अत दीक्षतराजातु हयमेतसतेन सह ब्रह्मा वर्ते मनोक्षेत्रे यत्र प्राची सरस्वती तदभिप्रेत्य भगवान् कर्मादिशयम् आत्मनः सतक्रतुर्नमं ऋष्ये भृतोर्यज्ञमकोत्सवं यत्र यज्ञपतिक्साक्षाद्भगवान् हरिरीश्वरः अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः अन्वितो ब्रह्म सर्वाभ्यां लोकपालैः नानुघै उपगीयमानो गन्धर्वैर्मुनिभिश्च अप्सरो गणैः सिद्धा विद्यातराधैत्या धानवागुह्यकादयः सुनन्दनन्दप्रमुखा पार्षदप्रवरो हरेः कपिलो नारथो धद्दो योगे शासनकाधयः तमन्वीयोर्भागवता च तत्त्वे सनोत्सुकाः यत्र धर्मदुःखा भूमिः सर्वकामदुःखा दोक्तिस्मा भीतितानर्थान् यजमानस्य भारत उः सर्वरसान्नक्षिरधन्त्यन्तघोरसान् तरवो भूरि वर्ष्माण प्रासूयन्तमदुष्युतः सिन्धवो रत्ननिकराङ्गिरयोन्नं चतुर्विधम् उपायनम्बुभाजकृ सर्वे लोकाशपालकाः इति चाधोक्षजे सस्य पृतोस्तु असूयन् भगवान् इन्द्रप्रतिघातमचीकर चरमेणा स्वमेधेन यजमाने वैद्ये यज्ञवशुं स्पर्धन्तपोवा कतिरोहितः तमत्रिर्भगवानैक्षत्वरमाणं विहाय सा आमुक्तमिबा घण्टं यो धर्मे धर्मविभ्रमः अत्रिणा चोतितो हन्तुं पृथुपुत्रो महारथः अन्वधावत संहृद्ध तिष्ठे तिष्ठे तं दातृशाकृतिं वीक्ष धर्मं शरीरिणं जटिलं पस्मनाच्छन्नं तस्मै बाणं न मुञ्चति वधा निवृत्तं तं भूयो हन्तवेत्रचोतय जही यज्ञधनं तातमहेन्द्रं विबुधाधमम् एवं वन्यसुतप्रोक्तत्वरमाणं विहाय सा अन्वद्रवत्तभिरुद्धो रावणं कृत्रराढिव सुस्वं रूपं च धद्धित्वा तस्मा अन्तर्हितस्वरा वीरस्वपशुमाधायपितुर्यज्ञमुपेयिवान् तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः नाम देयं दतोस्तस्मै विजिताश्व इति प्रभो उपसृज्यतमस्ति ब्रं जहारस्वं पुनर्हरिहेर्सशालयूपतश्चन्तो हिरण्यरसनं विभुः अत्रि सन्धर्सयामा सत्त्वरमाणं विहाय सा कपालकट्वाङ्गधरं वीरो नैनमबाधत अत्रिणाचोतितस्तस्मै सन्दते विशिकं वृषा रूपं च वीरश्च उपाधाय पितृयज्ञम् अथा व्रजत् तदवद्यं हरेरूपं जगृहज्ञानदुर्बलाः यानि रूपाणि जगृहे यन्त्रो हयजिहीर्षया तानि पापस्य कण्ठानि लिङ्गं कण्ठमिहोष्यते एवमिन्द्रे हरत्यस्वं वैन्ययज्ञजिहांसया तद्ग्रीहीतविसृष्टेषु पाखण्डेषु मतिर्नृणां धर्म इत्युपधर्मेषु नग्नरक्तपढादिषु प्रायेण सज्जते भ्रान्त्या पेसलेषु च वाक्मिषु तदपि ज्ञाय भगवान् पृथुः पृथुः पराक्रमः इन्द्राय कुपितोपाणम् आदधोद्यतकार्मुकः तमृद्विज्चक्रवधा विसन्ति तं विचक्ष दुष्प्रेक्षम् निवारयामा सुर को महामते न युज्यते त्राण्यवतः प्रचोदिता वयं मरुद्वन्तमिकार्तनासनं त्वयामहे त्वच्छरसाह तत्विषम् अयातयामोपहवैरनन्तरं प्रसह्य राजन् जुहवामते हितम् श्रु हस्ताज्ञो हेतोऽभ्येत्य स्वयं भू प्रत्यषेधत न यत्यज्ञो भगवतनुः यं जिगांसत यज्ञेन यस्य इष्टास्तनव सुराः तदिदं द्विजाः इन्द्रेणानुष्ठितं राज्ञैतद्विजिगांसत प्रदुकीर्थे पृथोर्भूयाद्दह्ये को न सतक्रतुः अलं ते क्रतुभिस्विष्ठैर्यद्भवान् मोक्षधर्म वेत् नैवात्मने महेन्द्राय रूषम् आकर्तुमर्हसि उभावभिः भद्रं ते उत्तमश्लोकविग्रहो अस्मिन् महाराजकृतास्म चिन्तां निसामयास्मद्वच आदृतात्मा यत्यायतो दैवहं दृष्टं विसते तमोन्धं धर्मव्यतिकरो यत्र ीरिन्द्रोपशंसृष्टैवा कण्ठैर्हारिभिर्जनम् ह्रियमाणम् विचक्ष्वैनं यस्ते यज्ञ अश्वमुठ भगवान् परितातुमिहावतीर्णो धर्मम् जनानाम् समयानुरूपम् वेनापचा च आतवप्लुप्तमद्य दद्देहतो विष्णुकलास्ति वञ्ज सत्त्वं विमृशस्यास्य भवं प्रजापते सङ्कल्पनं विश्वसृजां बिभू पृहे ऐन्द्रीं च मायमुत धर्म तथा चत्सल महो नीच सन्धते कृता वप्रुतस्नाय पृथ्वे भूरिकणे वरांदस्ते वरधा तबर्षिर्ता सत्याशिष्तुष्टा श्रद्धया लबदक्षिणा आशिषो युयुषत्धिराजा सत्कृता त्वय्या कुता महाभागो सर्वयेव एव समागताः पूजिता धानमानाभ्यां पितृदेवर्षि मानवाः इति श्रीमद्भगवते महापुराणे चतुर्थस्कन्धे पृथुविजये एकोनाविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमगराज के जय